श्रीमद्भागवत् महापुराणम् एकादशस्कन्धम् अथ पञ्चदशोऽध्यायः भिन्नभिन्नसिद्धिं की नामलक्षणन् श्रीभगवानुवाच जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः मयि धार्यतश्चेत उपतिष्ठन्ति सिद्धयः उद्धौ उवाच कयाधारणयाकास्वेकसंस्वे सिद्धिरच्युत कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् श्रीभगवानुवाच सिद्धयोष्टादशप्रोक्तां धारणायोगपारगैः तासामस्तौ मत्प्रधाना दशैव गुणहेतवः अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरं प्रेरणमीषिता गुणे स्वसङ्गो वशिता यत्कामस्तदं वस्यते एता मे सिद्धय सौम्य अष्टावोत्पत्तिकामताः अनुर्मे मं देहेऽस्मिन् दूरश्रवणदर्शनम् मनोजवकामरूपं परकाय प्रवेशनम् स्वच्छन्दमृत्युर्देवानां सह क्रीडानुदर्शनं यथा सङ्कल्पसंसिद्धे आज्ञाप्रहितं प्रहिता गतिः तिकालज्ञद्वमद्वन्द्वं परिचित्ताद्यभिज्ञयाम् अग्न्यार्काम्बोविषादीनां प्रतिष्टम्भो पराजयः एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः यया धारणीयाया स्याद्यथा वासान्निबोधमे भूतसूक्ष्मात्मनि मयि तन्मातृं धार्येन्मनः अणिमानमवाप्नोति तन्मात्रोपासको मम महत्यात्मन्मयि परे यथा संस्थं मनोदधत् महिमानम्वाप्नोति भूतानां च पृथक् पृथक् परमाणुमये चित्तं भूतानां मयिरञ्जयन् कालसूक्ष्मार्षतां योगी लघुवानमुवाप्नुयान् धारयन्मय्यः तत्त्वे मनोवैकारिकेऽखिलं सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः मत्यात्मनियसूत्रे धार्येऽन्मयि मानसं प्राकाम्यं पारमेश्वं मे विन्दते व्यक्तजन्मनः विष्णौ त्रिधीश्वरे चित्तं धार्येत् कालविग्रहे स इशि त्वम् अवाप्नोति चैत्रज्ञे त्रज्ञचोदनां नारायणे तुर्याख्ये भगवच्छब्दशब्दिते मनोमयाद् धद्योगी मद्धर्मा वशितामियात् निर्गुणे ब्रह्मणि मयि धार्यन्मिश्रितं मनः परमानन्दमाप्नोति यत्र कामो वशीयते श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि धार्यथे ततां याति षडुर्मीरहितो नरः अय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् तत्रोपलब्धा भूतानां हंसो वाच शृणोद्यसौ चक्षुस्पष्टरि संयोज्य त्वष्टारम् अपि चक्षुषे मां तत्र मां मनसाध्यायन् विश्वं पश्यति सूक्ष्मते